मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं नैन् लम्बोदरदेवर्षिकृतस्तुतिवर्णनम् श्रीगणेशाय नमः ब्रह्मोवाच एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयो मलाह हर्षयुक्ता हर्षयुक्ताविशेषेण पुपूजोर्गणनायकं पूजयित्वा विधानेन ने मुर्लम्बोदरं पुनः तदस्तं तुष्ठुवु सर्वे भक्तिनम्रात्मकन्धराः देवर्षय ऊचुः श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तकं पूर्णमनन्तभावम् नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं न दास्मः बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्दवेद्यं वैदेहयोगेन च लभ्यमेवं तं च वयं न जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थं देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं न दास्मः सोऽहं सदा वै देहात्मयोगं सखलावभाष्यम् नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नदा स्मः बिन्दुस्वरूपं मनसाधगम्यं पादैर्विहीनं च चतुष्पदम्यं नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नदा नादस्वरूपं च गुणेशमेघं सर्वत्र चक्षुश्रुदितुण्डभूतं सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं न दास्मः संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं जीविधावभासम् तमसा विभान्तं लम्बोदरं तं च वयं न सूक्ष्मस्वरूपं च तदान्तरस्थं सर्वज्ञमाद्यं गणनायकव्यं विज्ञानकोशस्तविहारकारं लम्बोदरं तं च वयं न स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्दमाद्यम् अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाश्यं परमार्थभूतम् देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नदा नित्यं रजो वैकर्मस्वरूपं विविधेन्द्रियस्थं तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नदा ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै तज्जाधिैवप्रचुरं महान्तं लम्बोदरं तं च वयं नदा स्मः आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतं भूदै सदा खेलकमादिनाथं लम्बोदरं तं च वयं नदा स्मः वायुस्वरूपं जगते कचालं प्रणादिसंस्तं स्वविभागतव्यं देहप्रचारं दशनामभिश्च लम्बोदरं तं च वयं न दास्मः तेजस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नदा स्मः जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगम्परेशं नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नदा पृथ्वीस्वरूपं च धराधरेशम् सर्वान्नमूलं विविधौषधिष्ठम् आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नदा स्मः विराट्स्वरूपस्तमनन्दभारं सर्वत्र नेत्रं च सहस्रशीर्षं सर्वत्र हस्ताननपादपादिं लम्बोदरं तं च वयं न दा स्मः रजोयुधं सृष्टिकरं द्विजेशमादिस्वरूपं प्रपितामहं यं समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नदा स्मः हरिरूपधारं यं तामसं शङ्करवेशसंस्थं सूर्य प्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नदा स्मः सुविराजमानं सर्वैविहीनं तु कथं स्तुवीमः देवा शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं न दास्मः श्रुत्वादेवर्षयस्त्वेवं प्रणेमुस्ते गजाननं लम्बोदरस्तानुवाचमहाभागान् सुसिद्धितः स्तोत्रं भवेन्मत्प्रीतिवर्धनं पठदां शृण्वदां सद्य सर्वसिद्धिप्रदायकं धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् भविष्यदि सदा मान्यं सर्वकार्येषु सर्वदा मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः भविष्यदि न परकृत्य विनाशनं पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः धनधान्यकलत्रादिसुखं विन्दतिमानवः पारागृहगतं सद्योमोचये स्तोत्रपाठतः कृदीप्सितं लभे सर्वमेकविंशतिवारतः एकविंशतिपाठांश्च स्तोत्रस्य अस्य करिष्यति स सद्यो हि फलं भुङ्क्त एकविंशद्दिनावधि प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोमराः वरं ब्रूद महाभागा यद्यपि स्यात् सुदुर्लभम् लम्बोदरवचो देवर्षय श्रुत्वा प्रणम्यतं जगुःप्रहृष्टचित्तास्ते साश्रुनेत्राः सुयन्त्रिताः देवर्षय ऊजुः लम्बोदरप्रसन्नोऽसि वरदोऽसि महाप्रभो तव भक्तिं सुसम्पूर्णां देहि क्रोध विवर्जितां क्रोधा सुरस्त्वयानाथ कृत तेन विश्वं वरयुक्तं कृतं प्रभो स्वस्वकर्मरदा सर्वे भविष्यन्ति सुधर्मिणः वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः मुनयो भयहि नास्ते यथा प्रभो भविष्यन्ति गणाधीशकं वरं तु वृणीमहे यवमुक्त्वा प्रणेमुस्ते लम्बोदरं सुखप्रदं ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः लम्बोदरस्थानुवाच तदेत्येव प्रदा भवान् अन्तर्धानं चकारासौ पश्यदा मम रर्षिणाम् तदो देवाद्विजास्तत्र कृत्वा सुशोभनां चतुर्भुजां गणेशस्य स्थापयामासुरादराद पश्चिमे सागरे तीरे पुभुजुष्टां विशेषतः तदाधि तत्समुद्भूतं क्षेत्रं लम्बोदरस्य च अंशेन स्वाधिकारेषु स्थिता देवर्षयो मलाः पूर्णभावेन तत्रैव भक्तिं कुर्वन्ति नित्यदा ये कथितं सुचरित्रकं विश्वामित्रवसिष्ठौ च क्रोधनाशनं क्रोधनाशनम् असद्ब्रह्ममयो चा गणेशर स्वरद उधं कौलया प्रभु तस्पर वक्त ना प्रशक्यसम योग नभ्यसे योग से अयम लंबोदरच पूर्ण प्रवाचक संयोगायोगयोर्योगे लभ्यते योगसेवया उदारात्तस्य सम्भूतौ संयोगा योगरूपकौ तेन लम्बोदरश्चायं कथ्यते वेदवादिभिः असित उवाच एवमुक्त्वा स्वयं ब्रह्मविरराम महामते वसिष्ठस्थं प्रणम्यैव गतस्वाश्रममण्डले विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः एवं गदे मया तत्र पृष्ठसोऽपि पितामहः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे गजाननचरिते लम्बोदरदेवर्षि कृतस्तुतिवर्णनं नाम नवमोऽध्यायः ओ